अथ श्रीमहाभारते आदिपर्वणि सप्ताधिकद्विशततमोऽध्यायः जनमेजय उवाच एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थं तपोधन अत ऊर्ध्वं महात्मानः किमकुर्वत पाण्डवाः सर्व एव महासत्त्वा मम पूर्वपितामहाः द्रौपदीधर्मपत्नी च कथं तानन्वर्तत कथं च पञ्च कृष्णायाम् एकस्यान्ते न राधिवाः वर्तमाना महाभागानाभिद्यन्तपरस्परं श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः वेमि रेखाण्डवप्रस्थे प्राप्तराज्याः परं तपाः प्राप्यराज्यं महातेजाः सत्यसन्धो युधिष्ठिरः पालयामास धर्मेण पृथिवीं भ्रातृभिः सह जितारयो महाप्रज्ञाः सत्यधर्मपरायणाः मुदं परमिकां प्राप्तास्तन्नो शुःपाण्डुनन्दनाः कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः आसां चक्रुर्महार्हेषु च पथ तेषु उपविष्टेषु सर्वेष्वेव महात्मसु नारदस्त्वथदेवर्षिराजगामयदृच्छया पथानक्षत्रजुष्टेन सुपर्नचरितेन च चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः नभःस्थलेन दिव्येन दुर्लभेन तपस्विनां भूतार्चितो भूतधरं राष्ट्रं नगरभूषितम् अवेक्षमाणो परेण तपसायुक्तो ब्राह्मेण तपसावृतः नये विशुतश्च महामुनिः परात्परतरं प्राप्तो धर्मात् समभिजग्मिवान् भावितात्मा गतरजाः शान्तो मृदुरुजुर्द्विजः धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः अक्षीणवृत्तधर्मस्य संसारभयवर्जितः सर्वथा कृतमर्यादो वेदेषु विविधेषु च रुक्सामयजुषां वेत्ता न्यायवृत्तान्तकोविदः ऋजुरारोहवाचुक्लोद्भूयिष्टपथिको नघः श्लक्ष्णया शिखयोपेतः सम्पन्नः परमत्पिष अवदते चूक्ष्मे च दिव्य चरुचि शुभे महेंद्र दत्ते महति बिभ्रतरम वासप्य दुष्प्रापमन ब्रह्मवर्चसुत्तम भवने भूमि पालस बृहस्पतिवाप्लुता